अथ वैशंपायनवाचा वैशम्पायन उवाच तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् विश्वस्तानिव संलक्ष्य पुरोचनः पुरोचने तथा हृष्टे कौन्तेयोथ युधिष्ठिरः अस्मानयं सुविश्वस्तान् वेत्तिपापः पुरोचनः वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने आयुधागारमादिप्य दग्ध्वा चैव पुरोचनं षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः अथ दानापदेशेन कुन्ती ब्राह्मणभोजनं चक्रे निशि महाराज आ जग्मुस्तत्र योषितः ता विहृत्य यथा कामम् भुक्त्वा पीत्वा भारता जग्मुर्निशिगृहानेव समनुज्ञप्य माधवीम् निषादी पञ्च पुत्रा तु तस्मिन् भोज्येयदृच्छया अन्नार्थिनीशमभ्यागात् स पुत्रा कालचोदिता सा पीत्वा सपुत्रा मदविह्वला सह सर्वैः सुतैः राज्ञम् तस्मिन्नेव निवेशने सुश्वापविगतज्ञानामृतकल्पा नराधिपा अथ प्रवाते तु निशिसुक्ते जने तदा तदुपादीप यद्भीमः ततो जतु गृहद्वारम् दीपयामास पाण्डवः समं ततो ददौ पश्चादग्निम् तत्र निवेशने ज्ञात्वा तु तद्गृहम् सर्वम् आदित्तम् पाण्डुनन्दनाः सुरङ्गाम् विविशुस्तूर्णम् मात्रा सार्धमरिन्दमाः ततः विभावसोः प्रादुरासी तदातेना बुबुधे स तदवेक्ष्य ग्रहं दीप्तं आहुप पौरा कृशा पौरा ऊचुः दुर्योधनप्रयुक्तेन पापेन कृतबुद्धिना गृहमात्मविनाशाय कारितं दाहितं च तत् अहो धिधृतराष्ट्रस्य बुद्धिर्नाति समञ्जसा यः शुचिन् पाण्डुदायादान्दाहयामास शत्रुवत् दिष्ट्यात्विदानीम् पापात्मा दग्धोऽयमति दुर्मतिः अनागसः सुविश्वास्तान् यो ददाहनरोत्तमान् वैशम्पायन उवाच एवं ते विलपन्ति स्म वारणावतका जनाः परिवार्यगृहं तच्च तस्थो रात्रौ समन्दतः पाण्डवाश्चापि सर्वे सह मात्रा सुदुःखिताः बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः न शेकुः सहसागन्तुं सह वेदपराक्रमः जगाम भ्रातॄनादाय सर्वान् मातरमेव च स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् पार्थौ विदारयन् स जगामाशु इति आदि आदिपर्वण जतु गृहपर्व जतु गृहदा सप्तचत्ंशद्याय